श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथाष्टपञ्चाशत्तमोऽध्यायः भगवान् श्रीकृष्ण के अन्यान्यविवाहो की कथा श्रीशोकुवाच एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः इन्द्रप्रस्थं गत श्रीमान् युधानादिभितः दृष्ट्वा तमागतं पार्था मुकुन्दमखुलेश्वरम् उत्तस्थुर्युगं पद्वीरा प्राणामभ्यामिवागतम् परिस्पृज्याच्युतं वीरा अङ्गसङ्गहतैन स सानुरागस्मितं वक्त्रं वीक्षितस्य मुदं ययोः युशिश्चिरस्य भीमस्य कृत्वा पादाभिवन्दनं भी फाल्गुणं परिरभ्याथ यमाभ्यां चाभिवन्दितः परमासन आसीनं कृष्णा कृष्णमनिन्दिता नवोढा पीडिता किञ्चित् क्षणैरेत्याभिवन्दत तथैव सा चकी पार्थै पूजितश्चाभिवन्दितः निसन्निससादासनेऽन्ये च पूजिता पर्यपाशत प्रथां समागत्य कृताभिवादनं तयातिहार्दाद्रदिशाभिरम्भितः आपृष्टवास्तां कुशलं सहष्णुषां पृत्वेष्सारं परिपृष्टबान्धवः तमाः प्रेमैं प्रेमवैक्लव्यरुद्धकण्ठा सुलोचना स्मरन्ति बहुं क्लेशान् क्लेशान् पायात्मदर्शनं तदैव कुशलं नो भूषनाथास्ते ज्ञाति न स्मरता कृष्णभ्राता मे प्रेषितस्तया न तेऽस्तिष्वपरभ्रातिर्विश्व ते सुहितात्मनः तथापि स्मरतां शश्वत्क्लेशान्हंसे हृदे स्थितः यदिष्टिर्वाच किं न आचरितं श्रेयो वेदाहमधीश्वर योगेश्वराणां दुर्दर्शो यन्नो दृष्ट कुमेधसाम् इति वै वार्षिकान् सा माम् इति वै वार्षिकान् मासान् राज्ञा सोऽभ्यर्थितसुखं जनयन् जयनानन्दम् इन्द्रप्रस्थौ कसां विभूम् एकदा रथमारुह्य विजयो वानरध्वजं गाण्डीवं धनुराधाय तृष्णो चाक्षेशायकौ शाकं कृष्णेन सन्नद्धो विहर्तुं विपुनं गम्बनम् बहुव्यालमृगाकीणं प्राविशन् परवीरः तस्रां विध्यक्षरो व्याघ्रान् शूकरान् महिषान् रुन् सर्वान् गवयान् सङ्गान् हरिणाक्षं ससलङ्कां लकान् तान् निन्योकिङ्कराराज्ञे मेध्यान् पर्वयुपागते त्रिन्प्रीतपरिश्रान्तो विभस्तुर्यमुनामगात् तत्रोपभ्यस्य विशतं त्ये महारथौ कृष्णौ जषु कन्यां चरन्तीं चारुदर्शनां तामासाद्यवरारोहां सुद्विजां रुचिराननां पप्रक्ष प्रविषितशख्या फाल्गुणं प्रमदोत्तमाम् का त्वं कस्यासि शुश्रोळी कुतोऽसि किं चिकीर्षसि मन्ये त्वां पतिमिक्षन्तीं सर्वकुतयमें शोभने कालिन्दुवाच अहं देवस्य स पितुर्दुहिता पतिमीक्षति विष्णुं वरेण्यं वरदं तपः परममास्थितां नान्यं पतिमृणे वीरतमृते श्रीनिकेतनम् तुस्य तां मे स भगवान् मुकुन्दो नाथ संशयः कालिन्देति समाख्यातावासामी यमुनाजले निर्मिते भवने पित्रायावदज्जित दर्शनम् तथावदन् गुडाकेशो वासुदेवाय सोऽपितां रथमारोप्य तद्विद्वान् धर्मराजमुपागमत् यदैव कृष्णसन्दिष्ट पार्थानां परमाद्भुतम् कारयामास नगरं विचित्रं विश्वकर्मणाम् भगवांस्तत्र निवशंसानां प्रियचिकीर्षया अग्नये खाण्डमं दातुम् अर्जुनस्यासुसारथि सोऽग्ने तुष्टो धनुरदाध्ययात् समेतान् रथं नृप अर्जुनायाक्षयौ तु भेदमस्त्रिवी मयस्य मोचितो वह्ने सभां शख्य उपाहरत् यस्मिन् दुर्योधनस्यासे जलस्थलदृशिभ्रमः स तेन समनुज्ञात सुहृद्भिः स्यानुमोदितः आयौ द्वारिकाम्भूय सातिकी प्रमुखैर्वितः अथोपये मे कालिन्दीं सुपर्ण्य वृक्ष वितन्मन् परमानन्दं शालां परममङ्गलम् विन्दानो विन्दाभावत्यौ दुर्योधनवशालुगौ स्वयंवरेष्वभगनीं कृष्णे शक्तां निषेधतां राजाधिदेव्या स्थलयाम्यत्र बिन्दां पृथविश्वसु तस्य हितवान् कृष्णो राजन् राज्ञां प्रपश्यताम्